शिवाः सम्प्रवगुर्वाताः प्रशान्तमभवद्रजः ज्योतींषि सम्प्रकाशन्ते जायमाने जनार्दने देवदुन्दुभयश्चापि सस्वनुर्भृषमम्बरे अभ्यवर्षम्स्तदागम्य देवताः पुष्पवृष्टिभिः गीर्भिर्मङ्गलयुक्ताभिरस्तुवन् मधुसूदनम् उपतस्थुस्तदा प्रादुर्भावे महर्षयः ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन् उपानृत्यन्नुपजगुर्गन्धर्वाप्सरसाम् गणाः उपतस्थे च गोविन्दम् सहस्राक्षः शचीपतिः अभ्यभाषत तेजस्वी महर्षीन् पूजयस्तदा इन्द्र उवाच कृत्यानि देवकार्याणि कृत्वा लोकहिताय च स्वलोकम् लोककृद्देव पुनर्गच्छ स्वतेजसा भीष्म उवाच इत्युक्त्वा मुनिभिः सार्धम् जगाम त्रिदिवेश्वरः वसुदेवस्ततो जातम् बालमादित्यसन्निभम् नन्दगोपकुले राजन् भयात् प्राच्छादयद्धरिं नन्दगोपकुले कृष्ण उवासबहुलासमाः ततः कदाचित्सुप्तम् तम् शकटस्य त्वधः यशोदा सम्परित्यज्य जगाम नदीम् शिशुलीलाम् ततः कुर्वन् स्वहस्तचरणौ क्षिपन् रुरोदमधुरम् कृष्णः पादावूर्ध्वम् प्रसारयन् पादाङ्गुष्ठेन शकटम् धारयन्नथ केशवः